पादपाठं यदन्ति यच्च दूरके भयं विन्दति मामिह पवमानवितज्ञै यदन्ति यच्च दूरके भयं विन्दति मामिह पवमानवितज्ञै यदन्ति यच्च दूरके भयं विन्दति मामिह पवमानवितज्ञहि